नारदपुराणम् पूर्वार्थम् अध्यायम् हण्ड्रेड् एण्ड् नैन् ब्रह्मोवाच शृणुवत्सप्रवक्ष्यामि ब्रह्माण्डाख्यम् पुरातनम् यच्चदशसहस्रमादिकल्पकथायुतम् प्रक्रियाख्यो नु शङ्काख्य उपोत्खात तृतीयकः चतुर्थ उपसंहारः पादाश्चत्वार एव पूर्वपादद्वयम् पूर्वो भागोऽत्र समुदाहृतः तृतीयो मध्यमो भागश्चतुर्थस्तुत्तरो मदः आदौ कृत्य नैमिशाख्यानकं ततः हिरण्यगर्भोत्पत्तिश्च लोककल्पनमेव च येष वै प्रथमः लोकज्ञानं ततः परम् मानसीसृष्टिकथनं रुद्र प्रसववर्णनं महादेवविभूतिश्च ऋषिसर्गस्ततः परम् अग्नीनां विजयश्चाधकालसद्भाववर्णनं प्रियव्रतान्वयोद्देश्यपृथिव्यायामविस्तरः वर्णनं भारतस्यास्य तदोन्येषाम् निरूपणम् जम्बु आदिसप्तद्वीपाख्या तदोर्धो लोकवर्णनम् ऊर्ध्वलोकानुकथनम् ग्रहचारस्ततः परम् आदित्यव्यूहकथनम् देवग्रहानुकीर्तनम् नीलकण्ठाह्वयाख्यानं महादेवस्य वैभवम् अमावास्यानुकथनं युगतत्त्वनिरूपणं यज्ञप्रवर्तनं चाथ युगयोरन्ध्ययो कृतिः युगप्रजालक्षणं च ऋषिप्रवरवर्णनं वेदानां व्यसनाख्यानं स्वायम्भुवनिरूपणं शेषमन्वन्तराख्यानं पृथिवी दोहनं ततः चाक्षुषेद्यतने सर्गे द्वितीयोऽङ्घ्रिः पुरोदब्ले अधोपोत्खादपादे तु प्रजापत्यन्वयस्तस्माद्देवादीनां समुद्भवः ततो जयाभिलाषश्च मरुदुत्पत्तिकीर्तनम् काश्यपेयानुकथनम् ऋषिवंशनिरूपणम् पितृकल्पानुकथनम् श्राद्धकल्पस्ततः परम् वैवस्वदसमुत्पत्तिसृष्टि स्तस्य ततः परम् मनुपुत्रान्वयश्चान्दो गान्धर्वस्य निरूपणम् इक्ष्वागुवंशकथनं वंशोत्रे सुमहात्मनः अमावसोरन्वयश्च रजेश्चरितमद्भुतं जयादिचरितं चाथ यदुवंशनिरूपणम् कार्तवीर्यस्य चरितम् जामदग्न्यम् ततः परम् वृष्णिवंशानुकथनम् सगरस्याधसम्भवः भार्गवस्यानुचरितम् पितृकार्यवथाश्रयम् सगरस्याधचरितम् भार्गवस्य कथा पुनः देवासुराहव कथा कृष्णाविर्भाववर्णनम् इन्द्रस्य दुस्तवः पुण्यः शुक्रेण परिकीर्तितः विष्णुमाहात्म्यकथनम् बलिवंशनिरूपणम् भविष्यराजचरितम् सम्प्राप्तेथ कलौ युगे समुपोद्धात्तपादोऽयम् तृतीयो मध्यमे दले चतुर्धमुपसंहारम् वक्ष्ये खण्डे तथोत्तरे वैवस्वतान्तराख्यानम् विस्तरेण यथा तथा पूर्वमेव समुद्दिष्टम् सङ्क्षेपादिह कथ्यदे भविष्याणाम् मनूनाम् च चरितम् हि ततः परम् कल्पप्रलयनिर्देश्यकालमानम् ततः परम् प्राप्तलक्षणैः वर्णनम् नरकाणाम् च विकर्मा मनोमयपुराख्यानम् लयः प्राकृतिकस्ततः शैवस्याध पुरस्यापि वर्णनम् च ततः परम् त्रिविधा गुणसम्बन्धाज् जन्तूनाम् कीर्तिदा गतिः अनिर्देश्याप्रतर्क्यस्य ब्रह्मणः परमात्मनः अन्वयव्यतिरेकाभ्याम् वर्णनम् हि ततः परम् इत्येष उपसंहारपादोवृत्तत्सहोत्तरः चतुष्पाद पुराणम् ते ब्रह्माण्डम् समुदाहृतम् अष्टादशमनौपम्यम् सारात्सारतरम् द्विज ब्रह्माण्डम् यच्च दुर्लक्षम् पुराणम् येन पठ्यते तदेतदस्य गदिदमत्राष्टादशधापृथक पाराचर्येण मुनिना सर्वेषामपि मानद वस्तु तस्तूपदेष्ठाधमुनीनाम् भाविदात्मनाम् मत्त श्रुत्वा पुराणानि लोकेभ्य प्रचकाशिरे मुनयो धर्मशीलास्ते दीनानुग्रहकारिणः मया चेदं पुराणं तु वसिष्ठाय पुरोदितं तेन शक्तिसुधायोक्तं जादुकर्ण्यायतेन च व्यासो लब्ध्वा ततश्चैदत् प्रभञ्चनमुखोद्गदम् प्रमाणीकृत्य लोकेऽस्मिन् प्रावर्तयदनुत्तमम् य इदम् कीर्तयद्वत्स शृणोदिज समाहितः स विधूयेकपानि यादिलोकमनामयम् लिखित्वैतत्पुराणं तु स्वर्णसिंहासनस्थितं वस्त्रेणाच्छादितं यस्तु ब्राह्मणाय प्रयच्छति लोकं नात्र कार्याविचारणा मरीचेष्टादशयितानि मया प्रोक्तानि यानि ते श्रोतव्यानि च विस्तराद अष्टादशपुराणानि यशृणोति नरोत्तमः कथयद्वाविधानेन विधानेन स जायते सूत्रमेतत्पुराणानाम् यन्मयोक्तं तवाधुना तन्नित्यम् शीलनीयम् हि पुराणा फलमिच्छता न भिकाय पापाय देव अनुसूयवे देयं कदापि साधूना द्वेषिणेन शठाय च शान्दाय समचित्ताय शुश्रूषाभिरताय च निर्मत्सराय शुचये देयम् सद्वैष्णवाय च इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे ब्रह्माण्डपुराणानुक्रमणीनिरूपणम् नाम नवोत्तरशततमोऽध्यायः ओम्